चण्डाला प्रतिहतरयो यस्य प्रति जानकी जानी प्राणवन् त्रैलोके प्यौ प्रतिम महिमा ज्ञायनम् ऋतवरवपो सीतया राम भक्ता ज्ञायनम् ऋतवरवपो सीतया प्रलयकलितम् वाहवथं महान्तम् हे त्वारात्रिं प्रकृतिसहजा अन्धतामे श्रमेश्र गीतम् शान्तं मधुरमपिय सिंहनादम् जगज गीतं शान्तं मधुरमपि य प्रथित पुरुषो रामकृष्ण त्रिलायिनीं सोऽयं जात प्रथित पुरुषो रामकृष्ण त्रिलायिनीम् दरदे समो दृशोथ तरङ्गम् दर्शित प्रेम वे जतरङ्गम् संशय राक्षस नाशमहास्त्रम् मि गुरुं शरणं भव वेद्यं यामि गुरुं शरणं भव वेद्यं नरदेवदेवा जय जय नरदेव नरदेवदेव जय द्वय तत्वस नाहित चेतम् प्रोज्वलभक् पतावृत गुरुं शरणं भव वैद्यं कर्मकरे वरम् यामि गुरुं शरणं भव वैद्यं नरदेवदेवा नरदेव नरदेवदे deva deva jay jay nar devi naradeva deva jay jay nar devi naradeva deva jay jay nar